Oh प्रजा असृजगताः सृष्टा इन्द्राग्ने अपागोहतां सोऽप्रजापजलेन्द्राग्ने वै मे प्रजा अपा भुक्षताग्नमेकादशकपालमपश्रप्तभत्तामस्मै प्रजाप्रासाधयतामिन्द्राग्नेवादेशश्च प्रजामपगूहतो योलं प्रजा एषन् प्रजान्न विन्दत ऐन्द्राग्नमेकादशकपालन् सर्व वै प्रजागामयिन्द्राग्नि एवस्मै न भागधे येनोपधावधिता वेदास्मै प्रजाम् प्रसाधयतो विन्दते प्रजामेन्द्रामेकादश स्पर्धमानः क्षेत्रे भाषजाते शुवेन्द्राग्नि एवस्वेन भागधे येनोपधावजिताभ्या मेवेन्द्रियम् भवा एतस्मादिन्द्रियम् वीर्यं ग्रामजयस्सङ्ग्रामप्रया जयेन्द्राज्ञादशगपाल निर्वहे सङ्ग्रामो वा प्रयास्यन्निन्द्राग्नि एव स्वास्मिन् वीर्यम् धत्तः सहेन्द्रियेण वीर्येणप्रया जयदिनगम् सङ्ग्रामम् विवाहे चेन्द्रियेण वीर्येण सङ्ग्रामम् जयत्यये दशकमानन्दवेत् सङ्ग्रामम् एवस्तेन भागधे येनोपधावेवास्मिन् धोने वीर्येण वीर्यं ग्रामदियये जनता मेन्द्राज्ञमेकादशकमानन्दर्भवेत् जनता मेन्दिन्द्राग्नि एवस्पेन भागधे येनोपधावेवास्मिन् त्तस्थेन्द्रियेण प्रधाता भूषणमेव प्रयच्छति क्षैत्रभत्यम् जलं निर्ववेत् जनता मागत्येयम् वै क्षेत्रस्य प्रजनस्यामेव प्रजतष्ठत्यैन्द्राज्ञमेकादश कपालोर वेद प्रतिष्ठांद्रिय मेप्युपलिष्टात्मन धत्ते ग्नये पसिकृते पुरोदासमष्टागमानम् गर्वपे योदलशपोर्णमासगा सन्नमा वास्याम् वा पोर्णमाधीम् वाजिपादये त्रियोदलशपूर्णमासगाजी सन्नमाभा स्याम् वा पोर्णमाधीम् वाजिपादयत्यज्ञमेव पसिकृतस्मै न भागधेन पन्थामपि परोडा दक्षिणामीतमध्याग्न व्रतपदये प्रोणाशमष्टाकपालन्यस्पन्नं लग्निमेव व्रतपतिज्ञस्वेन भागधे जैनापधामदिषेवैनं व्रतमालम्भयुवृत्यो भवत्येवणाशमष्टागपालन्यर्वपेद्यगं रक्षागं नग्निमेव रक्षोहनस्त्वेन भागधे जैनापधामधिषे निषिता भवतो रक्षदास्कृत्याग्रे द्रवसमष्टाकपालन् निर्वपेदभिजरन्नेदावा अस्य घोरातनोर्यस्मागेव ृश्चमदे पुरोणाशमष्टाकपालन्यो वा पुरुषा वा प्रमे वास्मैजङ्करोलभिमते भवति पूजे रङ्गस्यापहत्या पुरोणाशमष्टाकपालन् निर्ववेत् सङ्ग्रामे संयत्ते भागे जय नैवे शमयेनभिनिर्दिशति यमवदेशाम् युद्ध्यन्ति जीवतिषयम् परेषाम् प्रसमीयते जय जतगौ सङ्ग्राममभिवागे दे शेतानुच्य देषाम् पूर्वापरान् पञ्चः प्रमीयन्ते पुरुषाभुदृश्यस्य प्रियतभाय कामवदे पुरोनाथमष्टाकपान निर्ववे भागधेयेनैवैनकं शमय दयैषाम् पुरायुषोपरः प्रमीयते गृहानुच्य गृहान्तः प्रज्ञये क्षामवदे पुरोनाथमष्टागपानन्द्रे नैवैनकं समयदिनास्यापरम् गृहान्तः जे अग्नजे कामाय पुरोडादमष्टागमानम् निर्वमेङ्गामो नोपनमेदज्ञमेव कामग्रस्वेन भागधे येनोपधापदिषयेवै नगामेन समर्थयत्वेनष्ठाय पुरोडादमष्टागमानम् निर्ममे स्वमानः क्षेत्रे पाददातेषु वाग्निमेव यविष्ठस्वेन भागधे येनोपधापदिते नैवेन्द्रियम् वीर्यम् भ्रातृर्यो जयधे जाय परोनाथमष्टाकपान निर्वमेरभिजर्यमानाग्निष्ठन भागधे जेनापधामधिमा द्रक्षाकं वयतिपदेकपालन् निर्वमेकामजर्वमाय विजामि दैमेवायुष्पन्ध यस्मेन भागधे येनापधामदि ृह्यब् तथा जातवेदेव पुरोणाधमष्टागमान निर्वमे भोजिकामोक्यमेव जातवेदम् तस्मै न भागधे येनोपधापदिषये भोजिङ्गमय विफलत्येव पुरोणाथमष्टागमानम् निर्वमे रुप्पन्त तस्मै न भागधे यैनापधाप निषये वाच तेजस्पदे पुरोनाशमष्टाकपालन् निर्वपेत् तेजस्कामाग्निमेव तेजस्वन्दज्ञस्वेन भागधे यैनापधामति स एवास्मिन् तेजोदधाति तेजस्वेव भवत्यज्ञगे साहन्त्यरोनाचमष्टाकपालम् निर्वपेत् शीक्षमाणाग्निमेव सा हन्त्यज्ञस्पेन भागधे यैनोपधामति तेनैव सह तेजगम् सीक्षते अर्जयेन्नपदे पुरोडादभट्टागमानवेद्य कामजेतान्नवान् स्वामित्यग्निमेवान्नवन्तज्ञस्वेन भागधे येनोपधापदिष एवमन्नवन्तङ्करोत्यन्नवानेव भवत्यज्ञये नादाय पुरोडाय भष्टागमान निर्ववेद्य कामजेतान्नादस्यामित्यज्ञमेवान्नादज्ञस्वेन भागधे येनोपधापधिषगेवै न मन्नादङ्कर भवत्यज्ञये नष्टागमानम् निर्वमेकामयेतान्नपयस्यामित्यग्निवलिङ्गस्मै नैवै नमन्नपतिरेव भवत्यज्ञये भवमानाय पुरोणासमष्टाकमानन् निर्वमे लग्नेव जोगामया वेय लग्नजे भवमानाय स्मिन्तेन तथा लियदग्गये पावकायमाचमेव स्मिन्तेन तथा लियदग्गयेषु च यमायुदेवास्मिन् तेन तथाभे चक्षुष्टा भोगे भोमानाय निर्ममलि प्राणमेवास्मिन् तेन तथा लियदग्गये पावकायवाचन तथा लियदग्गयेषु जन्धो भवति प्रेमपश्यत्यग्रगे पुत्रपदे पुरोडाशमट्टाकपालं नर्ववेन्द्राय पुत्रणे पुरोडाशमेकादशकपालं प्रजाकामाग्निरेवास्मै प्रजापयामिन्द्रप्रयच्छत्यग् रसवदे चीरे क्षादेव सुमदे पुरोणासुमष्टाकपालन् कामये तव सुमान् स्वामित्यज्ञमेव वसुमन्तोपधापजयैनं वसुमन्तं करो भवत्यज्ञा जरोणासमष्टाकपालं निर्पभेत् सङ्ग्रामे धेवा जम्बा केशीरिषयः सङ्ग्रामे ष्टागमानस्याज्ञाभ्यमभ्युद्ध भागोपाो निर्दिष्टभागोन्यस्तौ सम्भवन्तो यजमानमभिशम्भवतस्ते ष्टागमान निर्वपे यस्याज्ञहोत्रोद्धृत्य इत्याहस्तत्तथा न कार्यम् यद्भागधेयमभिपूर्वबुद्धियते देवे, नि प्रथम अग्निस्वाद्यों दृष्टि जगत ह्यम प्रजान्योदेवस्वाद्यों पदा निर्भपति्योतिपदाव ुण्डय जलमभिजस्य वा नेश्वान बालजगवान भवजसंवत्सरो वाण्यर्वैश्वानरः संवत्सरे नैव नग्रस्पदयत्यपभावम् वर्णगुम्हदेवारुणेनैवैनम् वर्णपाशान्मुञ्चाभुण्णादिहिरण्यम् दक्षिणाभिम् वै हिरण्यम् पुरात्येवैन माध्यमस्यान्नम् भवत्येतामेव प्रजागामस्संवत्सरो वा एतस्यां प्रजाये पशोनान्निर्ग्रहयों प्रजाये प्रजान्नवानपाल भवतिसरमेव भागधेयेन शमयति प्रजां प्रजनयति वां वरणपा पुनादिहिरण्यम् दक्षिणा पवित्रम् वै हिरण्यम् पुनाद्यते पुत्रे जाते ब्रह्मा पुनावगपालस्त्रिपदैवास्मिन् तेजो तथा जियतेजादशकपालस्पृष्टुभैवास्मि जगत्येवासगारं द्वादशकपाल संवत्सरमेव प्रीणाच्यसरमेवार्गस्य समष्ट्यासो देवता देवान् लोकवेदवेडवा ब्राह्मणार्दायः पुरान्नवखन्दाज्ञेय ष्टागपालन्यवानन्दनय द्रष्टाकपालो भवत्यष्टाक्षरागायत्रे गायत्र वैश्वान द्वादश कपालन्मारुदुं सप्तकपालन्ते द्वादश कपाल वैश्वा न भवति द्वादश मासा नैवास्मे स जातागष्ट्या वैति मारुतो भवति वै ष्टविषमवरुन्धे सप्तकपाला भवति सप्तक नामे मरुताकणशगेवास्मे जातानवरुन्धे नोच्यमानासारयितविषमेवास्मानवस्मानङ्गी आदित्यञ्चलम् निर्वपवेत् सङ्ग्राममुपप्रयास्य जलस्यामेव पूर्वे प्रतिष्ठन्त्य वैश्वानलम् द्वादश जगपानम् निर्मपेदायतनम् गत्वा संवत्सरो वा निर्वैश्वानस्य वत्सरः खलु वै देवानामायतनमेतस्माद्वा आयतनात् देवासुरानयद्वैश्वानलन् द्वाद जगपानम् निर्वपति संग्राममेतस्मिन्वानेतौ प्रजातेजो विद्विषाणयोरन्त्यश्वा नलन्द्वादशगवानयोरन्ध्रं जग् वा नरस्सं वत्सरस्वर्जिनास्मिन् प्रजाते संवत्सराय वाेतौ सममादेयौ सममादेतयोर्यः पूर्वाभिद्रख्यं वरुणायुन्धादि वैश्वानलं द्वादशगमान निर्ववेत् सममानय पूर्वोऽभिद्रुक्य संवत्सरो वा निर्वयेष्वा नरः संवत्सरमेव स्वानिर्वरुणम् परस्तादभिद्रुक्य जनैनम् वरुणो गृह्णा क्याव्यम् वा नेह प्रतिगृह्णाति योभ्यम् प्रतिगृह्णाति वयेष्वानरम् वा जगमानम् ेद मात्रा वा प्रोदयमुभयादत् प्रति गृह्णा यश्वम् वा पुरुषम् वा वैश्वा नरन्वाद जगमानम् निर्वपेतु भयादत् प्रतिगृह्य संवत्सरो वाज्ञर्वेश्वा नरस्संवत्सरस्व प्रतिगृह्णा जिगात्मनो संवत्सरदा प्रत्यमास्मे प्रजा भवन्ति यो वे संवत्सरं प्रयज न विमुञ्चत्य प्रतिष्ठानो वेद भवत्यैतमेव वैष्मानलम् पुनरागत्य निर्वपेत्यमेव प्रयुङ्के जम्भागते जै न वि मुञ्चनि प्रतिष्ठेयगारज्वाङ्ग वाच ताम् भ्रातृम् जाय प्रखिणयान् निरचने ीन्द्रं चलन् निर्वपेत् पशुकामयेन्द्रा स्वेन भागधे येनोपधावति सेवास्मायं पशोन् पशुमानेव भवतीन्द्राय घर्मवदे पुरोदाशमेकादशकपालपे ब्रह्मवर्तस कावा ब्रह्मवर्चसं वै घर्म इन्द्रमेव घर्मवन्तर्ग्रस्वेन भागधे येनोपधावति सगेवास्मिन् ब्रह्मवर्चसन्तधा ब्रह्मवर्तस्यैव भवतीन्द्रायर्कवदे मेकादशपानं नुर्वपेदन्न कामोऽको वे देवानामन्नमिन्द्रमेवार्कवन्तर्गुस्पेन भागधे येनोपदापति सगेवः स्मान्नं प्रयच्छत्यन्नादेव भवतेन्द्राय घर्मवदे पुरोणाशमेकादशगपा नर्वपे इन्द्रायैन्द्रियावत इन्द्रायार्कवदे भूतिकामो यदिन्द्राय घर्मवदे नर्मपतिशिलगेवास्त्वेन करोन्द्रायेन्द्रियावदात्मानमेवास्थितेन करोति यदिन्द्रायते भूतयेनाद्ये प्रतिष्ठति भवत्येवेन्द्रायागुं भोमु च ीन्द्राय वै वृथाय पुरोडाशमेकादशकपालन् निर्ववेद्य मृथोऽभिप्रवेन्द्रास्त्राणि वाभिष वीरेन्द्रमेव ेवैनन्त्रायत इन्द्रायार्काश्वमेधवते पुनोणाशमेकाभिषगपालन्यम् महायज्ञानापनमे जय च वे महायज्ञस्यान्ते तनो याश्वमेधावीन्द्रमेवार्काश्वमेधवन् भग्रस्तेन भागधे येनोपधावधिसगेवास्मान्ततो इन्द्रायान्मृगमे पुरोडाशमेकादशगवानन् ने ग्रामकामैन्द्रमेवान्मृथज्ञस्त्वेन भागधे येनोपधावधिषदेवास्मै स जाताननुकान्तरादिग्राम्येव भवतीन्द्रान्यै शवन् नर्वकेन्द्रस्य तेनासगुंसि देवस्यादिन्द्राणी ते वैतेनायै देवतेन्द्राणीमेव स्वेन भागधे येनापधावधि सैवास्य तेनागुम् सग्निश्च विभम्ब जानपि द्वेदन्नत्राधिष्ठन् नान्यमे हस्ततोैन्यायमपिनीयगावेतयतीन्द्राय मन्युमते मनस्पते पुरोडाशमेकादश सङ्ग्रामे संयत्त्रियेण वे मन्यता मनसा सङ्ग्रामम् च यतीन्द्रमेव मन्यमन्तम् मनस्पन्द युष्मेन भागधे येनोपधावधि यं मन्युं मनोदधाममेतामेव निर्वपेद्यो हतमनः स्वयं पापयिवस्यादेतारिवा एतस्मादमक्रान्तान्यथैकहतमनः स्वयं पाप इन्द्रमेव मन्युमन्त्रेणस्मिन्निन्द्रियं मन्युं मनोदधातमना स्वयं पापो भवतीन्द्रायधात्रे पुरोडाशमेता जगपालन् निर्वभेद्यः कामये तदानकामा मे प्रजासृजेन्द्रमेव दातारस्मै न भागध येनापधावधगेवास्मै दानकामास् प्रजा करोति दानकामास्मै प्रजा भवन्तीन्द्राय प्रधात्रे कुरोकादशकपालन् निर्वभेद्यस्मै प्रदमिव सन्न प्रदीयतेन्द्रमेव प्रधातार यस्मै न भागध पयतीन्द्राय सुत्राणैपुरो नाशमेकादशगमालभेद पुरुध्यो वा न वेन्द्रमेव सुत्रामाण्यथ एवैनन्त्राय तेन परुध्योपतीन्द्रवेशं देवताभिराधे सनं व्यावृतमगच्छत्स प्रजापति उपाधावत्तस्मादेतमैन्द्रमेधादजगमाल निरापत्ययदैवास्मिन्निन्द्रियमदधाक्षक्पदे प्रजापतिम् पुनरुपाधा वत्स प्रजापति श्रिये समाने स्यात्तस्मादेतमैन्द्रमेकादश कालन् निर्वेरिन्द्रमेव स्वै न धातिगेव क्या पुराणवा भवतिशान्त्या अप्रदायषक्परे शाद्यावज्लोपे परेशगेन वज्रो भूत्या इन्द्रे भवत्येव वैत् नवमेकादशगमानम् सर्ववेदभितरन् सरस्वत्याजभागा स्यात्त्वा बृहस्पत्यश्चतुर्य वै नव एकादशगमान भवत्यज्ञ सर्व देवताभिष्टरु यज्ञो देवताभिष्टैवेनं यज्ञेन चाभितरति सरस्वत्याजभागा भवति वाग्मै सरस्वती वाचैवेनमभितरति वा बृहस्पत्यश्च ब्रह्म ्रह्म नैवेन अभिचरति प्रथिवे परस्तादभिचरन्तमभिचरन्ति द्वे द्वे गुरोन् वाक्ये कुर्यातधिप्रयुग्या एतयैव यताभिचर्यमानो देवताभिरेव देवता प्रतिचरति यज्ञेन यज्ञम् वाचा वाचं ब्रह्मणा ब्रह्म च देवताश्चैव यज्ञञ्च मध्यतोपलितश्च न कुतश्च नो वा भवतिनेन अभिचरन् श्रुताज्ञा वमेकाजगपालन् निर्ववेत्यै यज्ञानापलवेदज्ञः सर्वता विष्णु यज्ञो चैव विष्णुं च न भागध येनोपधावदिता वेवास्मै यज्ञं प्रयच्छत उपैनै यज्ञो न स्मिं चक्षुर्धतश्चक्षुष्माणेव भवति धेन्वैवार्जमनुहस्तवास्मै चक्षुप्रजनयति घृते भवति ते जो वै घृतं ते जश्चक्षुश्च दैवास्मै चक्षुरवरुन्धैन्द्रियं वै वीर्यं वृन्दे भ्रातृ योगिमानो विद्यमानस्याद्भरकल्पातृव्यस्येन्द्रियं ेव वृन्दे तामस्य वाचं प्रवदन्ती प्रवदन्ति तागिन्द्रियम् अष्टागमानन्ये बृहस्पत्याश्चागमाना भवत्राक्षरागायत्री गागत्रम् राजस्वनमेवकादशकपालनिर्वे माध्यन्दिनश्चवनस्याकाले भागास्याद्वारस्पत्यश्चर्यकादशकपाला भवत्येकादशाक्षात्पेष् माध्यन्दिनकं समनम् माध्यन्दिनमेव समनन्देनाज्ञावेष्णवं द्वादशकपालन् निर्ववे यथ वनस्याकारेण हस्पत्यार्च भागाश्चाद्वादहस्पत्यश्चलो यद्वादशकमाला भवति द्वादशाक्षरायन्त्री यथवनन्त्रि यथवनमेवनोति देवतापि रेव देवता प्रतिचरति यज्ञेन यज्ञम् वाचा वाचम् ब्रह्मणा ब्रह्मकपालैरेवनोति पुरोणाशैश्व वरुणमेकपालम् निर्मगै ध भ्रातव्यशान बारो देस्पाल ही कपाल पशुपन हा वादित्योऽलव्यरोचन तस्मै देवाः प्रागश्चित् मेच्छण्स्मागेतगं सोमा रौत्रञ्चलम् निरवपन्त्यण्डु च मदुर्यवत्यौद्रञ्चलन् निर्वते स्वगं चैवरुद्रं चेण भागोपधावधिता वेवास्मिन् ब्रह्मवच्चसं ध्रह्मवत्यस्यैव द्रो वेदिष्य स्वामः पूर्णमादस्ताक्षादेव ब्रह्मवर्च समवरुन्धे परिश्रिते राजयति ब्रह्मवर्चलस्य परिगृहेत्यै ै करोति युश्चर्मा भविष्यामेति सोमा पौष्णम् सोमा प्रजाकामःनाम् प्रजनहिता प्रजागम् गोमाहौद्रञ्चलम् निर्वेदभितरम् सौम्यो विदेवतया पुरुषगेदरुद्रोग्यमायागेवैनम् देवताये निष्क्रीय रुद्रायापि तथात्रिमाक्षति सोमाहौद्रञ्चलम् निर्वभेज्यो कामयापि सोमं वा एतस्य प्रज्ञकौशली जो गामय विसोमा देवाेणासितगुम्भो कानिष्ठितवान् होत्राच्वान्न्यत्मानग्रुणो माञ्चलः कामय तस्य भ्रातुव्यञ्जनयमिति वेदम् वर्गच्छार्थमध्वन्यानर्थन्नार्थम् वर्गिण प्रियानर्थम् नार्थमिद्मस्याः जाद्यादर्थम् न स्मेव स्मा आयतने ैन्द्रमेकादशकपालन् निर्वन् मारुतकम् सप्तकपालम् ग्रामकामयेन्द्रम् चैव मरुतश्च स्वेण एवास्मैतजातान् प्रयच्छन्ते ग्राम्येव भवत्या मारुतम् पावाप्तकपाला मारुतो भवति सप्तक नावे मरुतोकणशदेवास्मैत जातानवरुन्ते दिक्षा स्वा अनुवर्मानन्तरतामेव निर्वमे यः कामये नक्षत्राय समदन्तभ्या नित्येन्द्रस्यान्द्राया न ब्रूहेत्याश्राव्य ब्रूयान् मरुतो यजयति मारुतस्यां प्रोगान् मरुभ्यान ब्रूहेत्याश्राव्य ब्रूयादिन्द्रं यस्य समदन्तधानास्तिष्ठन्ते तामेव निर्वतेभ्यः कामये कल्परण्यथा देवतमपदाय यथा दैवतभागधे येनैवैनाने यथा यथं कल्पयति कम्पन्त देवैन्द्रमेकादशकपालं निर्वहेद्वैश्वदेवं पादशकपालं प्रयच्छन्ति ग्राम्येव भवत्यैन्द्रस्यापदाय न्द्रिये नैवास्मायतस्य जातान् परिगृह्णात्युपायम् प्रियङ्गवञ्चलं निर्वचयन् मरुद्भ्याद् ग्रामकामः मरुतोजाता पृष्ट्यै प्रियङ मारुतानुवे देवतया मरुतदेवा धापदितगेवास्मै दृजातान् प्रयच्छन्ति ग्राम्येव भवति प्रियमदीयाज्ञान् वाक्ये भवत प्रियमेव न कंसमानानाम् करोद्धिपदा पुरोन् वाक्या भवतिद्धिपद एवावरुन्धे चतुष्पदा याज्ञा धुरुष्पदेव पशोनवरुन्धे देवासुरा दे दे दे दे संयत्तासन्ते देवामिथो दे विप्रियासन्ते स्मै ज्येष्ठ्यायाधिष्ठमाया चतुर्थामन्द्रग्निर्वसुभिः सोमो रुद्रैरिन्द्र मरुद्भिर्वरुणहादित्यै स इन्द्र प्रजापतिमपाधा भत्तमेतया सम्पुमजय पुरोडादमट्टाकपान निरवपत्सोमाय रुद्रादे इन्द्रम् देवा ज्येष्ठ्याभिषमयादयस्तियस्यार्थमेतया सम् ्यायाजय लग्नय वसुमते पुरोणादमष्टागपालम् निर्मते सोमाय रुद्रपदे झलुविन्द्राय मरुत्पदे पुरोणायमेकादशगपालम् वरुणायादित्यपदे झलुविन्द्रमेवैनम् भूतम् ज्येष्ठ्याय समाना अभिसञ्जानदे वसिष्ठः समानानाम् भवति हिरण्यगर्भापोहयप्रजापते पुत्रापितरपुंसमात रघुंससोर्भुत्पुनचित्र संयता बृहत्तदंसभानुनाहस्ते तथा नोनर्या पुरोणी अग्निर्भवद्वयपते रम् सत्रा चक्रामामृतानि विश्वा हिरण्यपाणि मोदये सितानमुपह्वयेतापदम् वामद्यो दिवे दिवे वाम आत्मभ्यतुम् सावीः वामस्तहिक्षयश्च देवया वामभाजस्याम वरिष्ठा पर्वदानाम् क्षिद्रम्भरिषि प्रजा भो विप्रवर्तति बह्नादिनोषि महिणि सोमा तस्माभिचारिणे प्रतिष्टोभम् चक्तुभिः प्रया वाजन्न हेतन्तम् वेदमस्य अर्जुनेतरेण सख्यातरे ययो मादर्श्येश्व अयः सोमोऽधाय यस्मेतस्मा इन्द्रम् प्रतिनमे म्यच्छ आपाहान्तमन्यस्त्रमेन्द्रम् प्रथिमानानिष्ठिकेन्द्राय ब्रह्मजमदर्जायन्तादिपस्तुरस्यान्तर्यक्षकृते सपाधस्ते मरञ्जुष्मर्य ब्रह्मणस्थन्कुलदे सोमदक्षान्द्रोदृत्सतुर्याम् वषष्टे वृष्टभासा कृणमितन्मे युजस्वति विष्टहव्यम् तत्पादुष्कृतयोगिनो मे योऽयम् पादस्वस्त्यभिस्तदामः प्रतत्ते अद्य पुंसामि वयुनानि विद्वान् सन्ता गृह्णामि तव समतवीया क्षयन्तमस्मिके किमित्ते विष्णोपरिचक्षम् भवत्प्रयत्नपक्षे विष्टो अस्मि मा वक्तो अस्मदपगोह एतद्यगन्यलोपस्तमिचे दा बभूत आज्ञेदायम् वीरवन्तम् परीनसम् िनस्तो नमतः सहस्रिणो दुरो न वा जाज्ञश्रुत्या अपावृधि प्राचेद्यावाजये ब्रह्मणाग्रथिषु वर्णशुक्रमुषतो विद्युः अग्न्यर्दा द्रविणम् वीरमेशासहस्रा समोति अग्न्यर्दिव्यमातदानाग्नेर्धामानि विभृता पुरु मानो मग्धीरातो भरा घृतम् न गोदम् तनोररेवाश्चिरण्यम् तत्ते ऋग्मो नरो जलस्वधावः उभयश्चन्द्रसत्प्रिणो दर्वे श्रेणेष्यामुक्षेगतस्व हरिसर्गस्तोत मायोजलंहरेण युव समोष्याणाम् उतलादेशः श्रीमारसा प्रयाभिर्यादिशास्माकुम् समर्चा नियद्भ्रन्वायविष्टये कुरोणे पिताम् सुभोजतम् वीरमद्यव्यमस्मियम् च नाथः दे सन्तु द्विवाजाः श्रुणन्तो याभि यद्रेवतः दे स्तोता स्यात्त्वावतो मघो नः प्रेभैव